सम्प्रति वार्ता श्रयन्ताम् प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अद्य छत्तीसगढ राज्ये आधुनिकम विस्तारितं च भिलाई इस्पात संयन्त्रं राष्ट्राय अर्पयिष्यति प्रधानमन्त्री नरेन्द्रमोदी गतदिने नवदिल्ल्यां मन्त्रिपरिषदोपवेशने महत्वाकांक्षि योजनानां समीक्षाम् अकरोत् केन्द्रेण जम्मूकश्मीरस्य आरक्षिबलेष् महिलानां सहभागं वर्धनाय महिलानां समूहद्वयस्य कृते स्वीकृति प्रदत्ता फीफा विश्व चषकपाद कन्द्क स्पर्धा मालिका अद्य मॉस्कोनगरे प्रारभतगढ प्रधानमन्त्री नरेन्द्रमोदी अद्य छत्तीसगढ राज्यं यास्यति तत्र श्रीमोदी आध्निकं विस्तारितं च भिलाई इस्पात संयंत्रं राष्ट्राय अर्पयिष्यति सममेव प्रधानमन्त्री नरेन्द्रमोदी भिलाई क्षेत्र भारतीय प्रौद्योगिकी संस्थानस्य स्थायि परिसरस्य आधारशिलाम् अपि स्थापयिष्यति विविधकार्यक्रमेष् उपस्थास्यति मोदी प्रधानमन्त्री नरेन्द्रमोदी गतदिने नवदिल्ल्यां मन्त्रिपरिषदोपवेशनं अकारयत अस्मिन् उपवेशने संयुक्त जनतांत्रिक संयुति प्रशासनेन वर्षचतुष्टये विहितानां महत्वाकांक्षी योजनानां समीक्षा अभवत् अत्रावसरे नेके नैके केन्द्रीयमन्त्रिण उपस्थिताह अभवन् त्रिप्रायाम् अनवरत वृष्ट्या जलौघस्थिति समुत्पन्ना अनया वृष्ट्या सामान्य जनजीवनं दृष्प्रभावितं वर्तता राज्यारक्षिबलेन सूचितं यत् वृष्टिकारणेन इदानी यावत् राज्य जनत्रयं मृत्युम् उपगतम् राज्यस्य आपत्प्रबन्धन विभागेन सूचितं यत् प्रमुख नदीनां जलस्तरं समेधितमस्ति मुख्यमंत्री विप्लव कुमारदेव प्रभावितक्षेत्राणां स्थितिम् अवलोकयत जनेभ्य समुचित साहाय्यं च समाश्वासयत मणिपुर मणिप्रे त्रिदिवसेभ्य वृष्टिकारणात् सामान्य जनजीवनं विद्यते राज्यस्य उपत्यकायां स्थितीनां जनपदानां नद्या आपच्चिन्हत उपरि वहन्ति पूर्वीय इम्फाल पश्चिमीय इम्फाल विष्णुपुरम थौबल जनपदानां निम्नस्थलेष् च प्राशासनिक कार्यकाला विद्यालया महाविद्यालयश्च जले निमग्ना भवन्ति सीतामणी रक्षामन्त्री निर्मला सीतारमण गतदिने हनोई स्थले अग्रणी रक्षाया पीएसयू भारत इलेक्ट्रॉनिक्स लिमिटेड इत्यस्य प्रथम प्रथमकार्यालयस्य उद्घाटनं अकरोत् हय वियतनामेन सह भारतस्य सुदृढ सैन्य सहयोग प्रदर्शयति चत्र्थ वियतनाम भारत रक्षा उद्योगस्य उपवेशने तया प्रोक्तं यत् भारत रक्षा उत्पादने विस्तारार्थम् उद्यतोऽस्ति वियतनाम देशस्य कृते भारतस्य प्रौद्योगिक्या सह कार्यार्थम् उचितसमयो वर्तते गतदिने राज्ये राज्य नारायणपुरम बीजापुर चेति जनपदयो बस्तरक्षत्रात् ऊनविंशति माओवादिन निगडिता निगडितेष् एका महिला अपि वर्तते। आरक्षिसूत्रानुसारि निगडिता माओवादिन विविध घटनास् सम्मिलिता वर्तन्ते जम्मू केन्द्रेण जम्मू कश्मीरस्य आरक्षिबलेष् महिलानां सहभागं वर्धनाय महिलानां समूहद्वयस्य कृते स्वीकृति प्रदत्ता एक समूह जम्मूक्षेत्राय द्वितीयश्च कश्मीरक्षेत्राय भविष्यति षष्टि प्रतिशतं पदानि दश सीमवर्तिनां जम्मू साम्बा कठ्आ पूंछ राजौली बारामुला बांदीपुरा क्पवाडा करगिल लेह ले जनपदानां महिलानां कृते आरक्षितानि भविष्यन्ति